ब्रह्माण्डपुराणं मध्यभागम् अध्यायं तर्टि फोर् भार्गवचरितं सगर उवाच ब्रह्मपुत्रमहाभागमहान्मेनुग्रहकृतः यदिदं कवचं मह्यं प्रकाशितमनामयम् और्वेणानुगृहीतोऽहं कृतास्त्रो यदनुग्रहाद् भवतस्तु कृपापात्रं मधुना विभो रामेण भार्गवेन्द्रेण कार्तवीर्यो नृपो गुरो यथा समापिदो वीरस्तन्मे विस्तरदो वद कृपापात्रं स दत्तस्य राजा रामशिवस्य च उभौ तौ समरे वीरौ जखडादे कथं गुरो वसिष्ठ उवाच शृणुराजन् प्रवक्ष्यामि चरितं पापनाशनं कार्तवीर्यस्य भूपस्य रामस्य च महात्मनः सरामः कवचं लब्ध्वा मन्त्रं चैव गुरोर्मुखाद चकार साधनं तस्य भक््या परमयायुधः भूमिशागीतृशवणं स्नान सध्यापरायणः पुष्करे राम शतवर्षमदध्रितः समित्पुष्पकुशादीनिद्रव्याण्यहरखर्भृगोः आनीय काननाद्भूप प्रायच्छतकृतव्रणः सततं ध्यानसंयुक्तो रामो मदिमदाम्बरः आराधयामास विभुं कृष्णम् कल्मषनाशनं तस्यैवं यजमानस्य रामस्य जगदीपते गदं वर्षशतं तत्र ध्यानयुक्तस्य नित्यदा एकतादु एकदाधुमहाराज रामस्नादुं गदो महान् मध्यमं पुष्करं तत्र ददर्शाश्चर्यमुत्तमम् मृग मृगएसमयाद मृगयुक्त पलायिता व्याध मृगया प्राप्त कर्म तप्त पीड़िता पिपासीद महाभागपानुत्सुक पश्यत सरसस्तमाग पश्चान्मृगीसमायादा भीता सा चकिते क्षणा पिपदस्तत्र जलं शङ्कितमानसौ तावत्समागतो व्याधो बाणपाणिर्धनुर्धरः स दृष्ट्वा रामं भार्गवनन्दनम् अकृतव्रणसं योक्तं तस्थौ दूरकृते क्षणः स चिन्तयामास तदा संहितो भृगुनन्दनाद अयं रामो महावीरो दुष्टनामन्धकारकः कथमेदस्य हन्येदौ पश्यतो मृगया मृगौ इति चिन्तासमाविष्टो व्याधो राजन्यसत्तमतस्थौ तत्रैव रामस्य भयात् संत्रस्तमानसः रामस्तु तौ दृष्ट्वा पिबन्धौ सभयं जलं तर्कयामासमेधावी किमत्र भयकारणं नैवात् अत्र सम्नादो नचव्याधो च व्याधो हि दृश्यते केनैतौ कारणेनाहो सङ्गितौ चकिते क्षणौ अथवा मृगजातिर्हि निसर्गाचकिते क्षणा येनैतौ जलपानेऽपि पश्यतश्चकिते क्षणौ नैतावत्कारणं चात्र किन्तु खेदभयातुरौ लक्षयेरे खिन्न सर्वाङ्गौ कम्बयुक्तौ यदस्त्मौ एवं सञ्चिन्त्यमधिमान् स मध्यपुष्करे शिष्येण संयुधो रामो चापि संस्थितौ पीला जलम ततस्तौद वृक्षायास्रितम दृष्ट महात्मा कथा तौ चक्रदुर्मुद मृग्युवाज यावद्रामोत्र यदि अस वीर से भयं नैवावयोर्भवेत् अत्राप्यागत्य चेद्व्याधोह्यावयोः प्रहरिष्यति दृष्टमात्रो हि मुनिना भस्मीभूतो भविष्यति इत्युक्ते वचने मृग्या राम रामदर्शनतुष्टया मृगश्चोवाच हर्षेण समाविष्ट टः स्वकाम् एवमेव महाभागे यद्वैवदसि भामिनि जानेहमपि रामस्य प्रभावं सुमहात्मनः योऽयं संदृश्यते चास्य पार्श्वं शिष्यो हृतव्रणः स चानेन महाभागस्त्रादो व्याक्र भयातुरः अयं रामो महाभागे जमदग्निसुदोनुजः पितरं पार्थवीर्येण दृष्ट्वा चैव तिरस्कृतम् चकारादितरां क्रुद्धप्रतिज्ञां नृपकादिनीं तत्पूर्तिकामो ह्यगमद्भ्रमलोकं पुराह्ययम् सब्रह्मादिष्टवांश्चयिनं शिवलोकं व्रजेतिह तस्य त्वाज्ञां समादाय गतोऽसौ शिवसन्निधिं प्रोवाचा राज्ञश्चाप्यात्मनः पितुः स कृपालुर्महादेवः सभाज्य भृगुनन्दनं ददौ कृष्णस्य सन्मन्त्रमभेद्यं कवचं तथा स्वीयं पाशुपदं चास्त्रमन्यास्त्रग्राममेव च विसर्जयामासमुदा दत्त्वा शस्त्राणि चादराद सोऽयमत्रा गतो भद्रे मन्त्रसाधनतत्परः नित्यं जपदि धर्मात्मा कृष्णस्य कवचम सुधी शतवर्षा चाप्य गता सुम्हात्म मंद्रम साधयदो भद्रे न चुी अस्त भक्ति साइ त्रिवधा उत्तम मध्यमा चनिष्ठा तरले क्षण शिवस्य नारदस्यापि शुकस्य च महात्मनः अम्बरीषस्य राजर्षे रन्दिदेवस्य मारुतेः बलेर्विभीषणस्यापि प्रह्लादस्य महात्मनः उत्तमा भक्तिरेवास्ति गोपीनामुद्धवस्य च वसिष्ठादिमुनीषानां मन्वादीनां शुभेक्षणे भक्तिरे मध्या भक्तिरेवास्ति प्राकृतान्यजनेषु मध्य मध्यभक्तिरयं रामो नित्यं यमपरायणः सेवते गोपिकाधीशं तेन सिद्धिं न चागतः वसिष्ठ उवाच ुक्त्वा त्वरितं कान्तं सा मृगी हृष्टमानसा पुनः पप्रभक्तेस्तु लक्षणं प्रेमदायकं मृग्युवाच साधु कान्तमहाभागवचस्ते लौकिकं प्रिय यीदृग्ज्ञानं तव कथं संजातं तद्वदाधुना मृग उवाच शृणु प्रिये महाभागे ज्ञानं पुण्येन जायते तत्पुण्यमद्य सञ्जातं भार्गवस्यास्य दर्शनाद् पुण्यात्मा भार्गवश्चायं कृष्णाभक्तो जितेन्द्रियः गुरुशुश्रूषको नित्यम् नित्य नित्यनैमित्तिकादरः अतोऽस्य दर्शनाज्जातं ज्ञानं मेऽद्यैव भामिनि त्रैलोक्यस्थितसत्त्वानां निदर्शकं अद्यैव विदिदं मे भूद्रामस्यास्य महात्मनः चरिदं पुण्यदं चैव पापग्नाम शृण्वदामिदं यद्यद् करिष्यते चैव तदपि ज्ञानगोचरं योत्तमा भक्तिराख्यादा तां विना नैव सिद्ध्यति कवचं मन्त्रसहितं ह्यपि वर्षायुधायुतैः यद्ययं भार्गवो भद्रे ह्यगस्त्यानुग्रहं लभेद कृष्णप्रेमामृतं नामस्तोत्रमुत्तमभकृदं ज्ञात्वा च लप्स्यते सिद्धिं मन्द्रस्य कवचस्य च स मुनिर्ज्ञादतत्त्वार्थः सानुकम्पो भयप्रतः उपदेक्ष्यति चैव इनं श्रीकृष्णचारितं सर्वं नामभिर्ग्रथितं यतः कृष्णप्रेमामृतस्तोत्रा ज्ञास्य तेस्य महामतिः त्रिसप्तकृत्वो निर्भुपाम् करिष्यत्यवनीं प्रिया वसिष्ठ उवाच एवमुक्त्वा मृगो राजन्विरराममृगीं तदः आत्मनो मृगभावस्य कारणं ज्ञातवांश्च यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते चतुस्त्रिंशत्तमोऽध्यायः ओम्